अथ द्वाविंशः सर्गः वीक्षमाणस्तु मन्दसुः सर्वतो मन्दमुच्छ्वसन् आदावेव तु ददर्शानुजमग्रतः तम् प्राप्तविजयम् वाली सुग्रीवम् प्लवगेश्वरम् आभाष्य व्यक्तया वाचा सस्नेहमिदमब्रवीत् सुग्रीवदोषेण ममाम् गन्तुमर्हसि किल्बिषात् कृष्यमाणम् भविष्येण बुद्धिमोहेन माम् बलात् युगपद्विहितम् तात न मन्ये सुखमावयोः सौहार्दम् भ्रातृयुक्तम् हि तदिदम् जातमन्यथा प्रतिपद्यत्वमद्यैव राज्यमेषाम् वनौकसाम् मामप्यद्यैव गच्छन्तम् विद्धि वैव स्वतक्षयम् च हि राज्यम् च श्रियम् च तथा प्रजहाम्येष वैतूर्णमहम् चागर्हितम् यशः अस्याम् त्वहमवस्थायाम् वीरवक्ष्यामि यद्वचः यद्यप्यसुकरम् राजन् कर्तुमेव त्वमर्हसि सुखार्हम् सुख संवृद्धम् बाल मे न पश्य भूमौ पतितमङ्गदम् मम प्राणैः प्रियतरम् पुत्रम् मया हीनमहीनार्थम् सर्वतः परिपालय त्वमप्यस्य पिता दाता परित्राता च सर्वशः भयेष्वभयदश्चैव यथाहम् प्लवगेश्वर एष तारात्मज श्रीमाम् स्वया तुल्यपराक्रमः रक्षसाम् च वधे तेषामग्रतस्ते भविष्यति अनुरूपाणि कर्माणि विक्रम्य बलवान् रणे करिष्यत्येष तारेयस्तेजस्वी तरुणोऽङ्गदः सुषेणदुहिता चेयमर्थसूक्ष्मविनिश्चये औत्पातिके च विविधे सर्वतः परिनिष्ठिता यदेषा साध्वितिब्रूयात् कार्यम् तन्मुक्तसंशयम् न कर्तव्यमविशङ्कया स्यादधर्मो ह्यकरणे त्वाम् च हिंस्यादमानितः इमाम् च वाला माधत्स्व दिव्याम् सुग्रीव काञ्चनीम् उदाराश्रीस्थिता ह्यस्याम् सम्प्रजह्यान्मृते मयि इत्येवमुक्तः सुग्रीवो बालिना भ्रातृसौहृदात् हर्षम् त्यक्त्वा पुनर्दीनो ग्रहग्रस्त इवोडुराट् तद्वालिवचनाच्छान्तः कुर्वन् युक्तमतन्द्रितः जग्राहसोऽभ्यनुज्ञातो मालाम् ताम् चैव काञ्चनी ताम् मालाम् काञ्चनीम् दत्त्वा दृष्ट्वा चैवात्मजम् स्थितम् सुखदुःखसहकाले सुग्रीववशगो भव यथा हि त्वम् महाबाहो लालितः सततम् मया न तथा वर्तमानम् त्वाम् सुग्रीवो बहु मन्यते नास्यामित्रैर्गतम् गच्छेर्मा शत्रुभिररिन्दमा धर्तुरर्थपरोदाम् तः भव न चातिप्रणयः कार्यः कर्तव्यो प्रणयश्च उभयम् हि महादोषम् तस्मादन्तरदृर्भव इत्युक्त्वाथ विवृत्ताक्षः शरसम्पीडितो भृशम् विवृतैर्दशनैर्भीमैर्बभूवोत्क्रान्तजीवितः ततो विचुकृशुस्तत्र वानराहतयूथपाः परिदेवयमानास्ते सर्वे उद्याला शूनिया पर्वतानना चेवकशादूल निष्भारा वेगन महता कानना वना चुष्पेब्यद युद्धम गंधर्व से महात्म गोलभ से महाबाहोदश वर्षा पंच च नैव दिवसे तद्युद्धमुपशाम्यति ततः षोडशमे वर्षे गोलभो विनिपातितः तम् हत्वा दुर्विनीतम् तु वालीदम्ष्ट्राकरालवान् सर्वाभयङ्करोऽस्माकम् कथमेष वीरे प्लवगाधिपे तदा वने महावने सिंहुते महावनेथा गा निहते गवां पतऊ ततस्तुतारा व्यसनाल्लुता मृत्य भर्तुदनम समीक्ष्य साम भूमि परीरभ्य वालिण् महाद्रुम छिन्नमी श्रिता लताशे श्रीमद्राणे वाक आदि किष्किन्धाकाण्डे द्वाविंशः सर्गः